प्रजा स तपोदप्यदश सर्पाणसृजदसो गामयत प्रजासृजे जय दिशद्वितीयमदप्य दशमजागसृज रसो गामयत प्रजासृजे जय दिसृतीयमदप्य दशं देहे क्षितवालमवश्यत्तमवदत्ततो वेश प्रजा असृज रजत्तपस्तत्वा देहे क्षितवालं वदति भ्रजा जय वद यजमानसृज तेजद्वैदे मेभ्यम्बस्यत्यपास्माद्येक्षाक्रामदिनीलमस्य हरो ये तं मनो दरिद्रं चक्षुसोर्दो ज्योतिषा विश्रेष्ठो देक्षे मामाहासे नित्याहनास्माद्येक्षापक्रामदिनास्य निरों ये दीलद्वै देक्षितमभिवर्षति न्दपोऽस्य निर्भ्यन्त्युं देर्बलं धत्तौ जो धत्त बलं धत्त मामे दीक्षां मातपो निर्वधिष्ठेत्याहैतदेव सर्वमात्मं धत्ते नास्य दीक्षां नो निर्भ्यन्त्यज्ञैदेक्षितस्य देवदासोऽस्मादेतरिवजरितमेश्वरं रक्षागं सिहन्तोर्भद्रा दधिश्रे जेहि बृहस्पतिः पुर एता ते अस्मित्याः ब्रह्म वै देवानां बृहस्पतिस्त्वमेवान् वारपते सदेवं संवारजत्येतमगन्मदे भज जनं पृथिव्यायित्याहदे वज जनगृह्ये च पृथिव्या आगच्छति यो हि ते विश्वे देवा यदजुषन्तपोर्वह ध्यान्यजुषा सन्दरम् दयित्या हत्सामाभ्यानिह्य जयजुषा सन्दरतियो यजते राजस्पोषेण सहिषामधेमेत्याहाशिषमेवैतामाशास्ते एषदेकागत्रो भागयिति मे सोमादब्रूतादेशदे त्रैष्टुपो जागतो भागयति मे सोमानब्रूताच्छन्दो मानागुं साम्राज्यं गच्छति मे सोमादब्रूताद्यो मे साम्राज्यं गङ्गमजित्वा क्रीणाति गच्छति स्वानागुं साम्राश्यञ्छन्दागुंसिखरु मे साम्राज्योगः पुनस्तात् सोमस्य प्रजा देवमभिमन्दयेदसाम्राज्य नैव गङ्गमयित्वाग्रेणाधिगच्छति स्वानागुंसाम्रा नो नस्येव तिष्ठति ब्रह्मवादिनो मतं दिनप्राश्नन् दिनजुह्वं प्रतिष्ठति दिवतो मनसे जिघ्रे त्वजावतो त्वा मनसि जिहोमेत्येषा मेदानोऽनत्रस्य प्रतिष्ठाय देवं वेद प्रत्ययव तिष्ठधिो वा अध्वर्योः प्रतिष्ठां वेद प्रत्ययव तिष्ठधिगतो मन्ये तानभिक्रम्यः श्यामे नप्रतिष्ठताहोदम् प्रतिष्ठत् धेयो वा अद्भर्योऽस्वमानेव भवदृग्वा अस्य स्वम् वा यमस्य स्वं चमसोऽस्यम्भ्या श्रावयत् स्वादिजात्तस्मानम्भारभ्या श्रावयज्ञे प्रतिष्ठित स्तोम प्रतिष्ठितान्युक्थान्यप्रतिष्ठितो गजमान प्रतिष्ठितो सोमस्य यज्ञं वादे तत्संभरन्तु यत्सौमग्रजण्ं प्रहरन्त्युत्वे मानयन्त्यं वनागं च प्रवर्तयन् दशवास्तेष्यो हीयदेशोऽनुध्याय दि सदेश्वरो रुद्रो भूत्वा प्रजां पशो र्यदि पशुमाप्रेतमुदन् चन्ति तस्य पशुश्रवणगुंहरेत्येनैव भागिनं करोति यजमानो वा आहवनिदो यजमानं वा एतद्विकरिषन्दे यदाहवनिदात्मशुश्रवणगुम्हरं च सवैवस्यां वाजमानस्य यस्तान् कामये गुविदङ्गतिपद्यर्जाग्नेः यान्नमा वृत्तिमेवैषाम् मृन्दगाजगाद्यमार्च्छन्ते प्रजापद्यायमानाः प्रजा जाता स्वयादिमाः तस्मै प्रति प्रमेदयज यत् भागम् अनुमन्यताम् इमम् पशुम् पशुपते अनुबद्धाम् यज्ञे तु कृतस्य मध्ये हनुमान्यस्य सुयजा निजानुष्टम् देवानामिदमस्तु हविजम् प्रजानन्दः प्रतिगृह्णन् तिपूर्वेः प्राणभङ्गेभ्यः पर्याचरन्तम् सुभाग्या हि पशुभिन्ददा नेलोषधेषु प्रतिनिष्ठा शरीरैः एषामीशे पशुपतिः पशूनाञ्चतुष्पदामुत निष्क्रेतो यज्ञजम् भागमेतराजस्पोषागजमानस्य सन्तो देवध्यमानमनुपध्यमाना अध्रेक्षम् नमनसा चक्षुषा च अग्निस्तागम् अग्रे प्रमुदेवः प्रजापतिः प्रजजा संविधानः ज्ञा प्रसवो विश्वरूपा विरूपाः सन्तो जुस्थानम् अग्रे प्रमुदेवः प्रजापतिजया प्रजा प्रजा संविधानः प्रपञ्चमानाभवनस्य लेतो गातुम् धत्तयजमानाय ले देवाः उपाकृतकं शमानम् गवस्थाः जीवम् देवानामप्येदुपाथः नानाः प्राणो यजमानस्य पशुना यज्ञो देवेभ्यः सह देवयानः श्रीभुवम् देवानामप्युपाथः सत्याः सन्तु कामाः यत्प्रशुर्मायमृतोभिराहते माणम् मादस्मादेन सो विश्वान्वन् सत्त्वकम् हसः शमितार उवेदनयज्ञम् देवेऽभिरन्वितम् पाशाः पशुम् रमञ्चदबन्थाद्यज्ञ ेदम् नमः पशुभ्यः पशुपदरे करोमि गृणामियम् विष्मस्तस्मिन् प्रतिमुञ्जामिपाशम् त्वा मुदे हव्यम् गर्तार मुदलग्नियम् च आग्ने जातवेदो जिषस्व जातवेदो वपजागच्छ देवान्वथमो हृदयेन त्वम् तनुवा बन्धय स्वस्वाहालगम् हविरदम् तु देवाः स्वाहा देवेभ्यो देवेभ्यः स्वाहा प्राचावत्या मे वसवस्तेशागम् मृद्वाधिपतमुपागनोदिताभ्याम्भत आत्मना पुरस्कायद्वाभ्यामुपागनोदिपान प्रचक्षत्या उपागद्वन्तजहो दिवान्दा पशवः पशोने वा वरुन्धय मृत्यवैवाजे शनैशस्तनयदम्बालभयद प्रवालको यजमानस्यान्ना प्राणो त्याहव्यावृत्यनेत्याहुरेवेद्रियमाणायामग्नेर्मेधोपक्रामदित्वा मुदेहवाहमित्यग्नेधमवरुन्धे स्वाशुत्वाय पुरस्ताः स्वाहा कृतजो वा अन्ये देवा उपनिष्टात् स्वाहा कृतजोऽन्ये स्वाहा देवे देवेभ्य देवेभ्य स्वाहे ज्यपिता भवान् जहदितानेव भयाहान् प्रेणादि यो वा यथा देवतं यज्ञमुपचरच्च देवताभ्यो वृष्टदेवापीजान् भवति यो यथा देवतं न देवताभ्य आवृष्टदेवसीजान् भवत्याग्ने याग्नेभरमधिष्णं या हृद्धा नमाग्नेयासृचो वायं जया सदो यथा देवतमेव यज्ञमुपचरति न देवताभ्य आवृष्टदेव सेयान् भवति ृथिवे ज्योतिषा सह जुनज्मि वायुमन्तरिक्षेण देश्मि वाचकम् सहसौर्येण अज्ञर्देवता गायत्री छन्द उपागुंसौः पात्रमसि सोमो देवता तिष्ठुच्छन्दो सुन्दर्यमस्य पात्रमसेन्द्रो देवता जगति छन्द इन्द्रमा जिवोः पात्रमसि गृहस्व च देवता दृष्टुच्छन्दो रुद्रावर्णजः पात्रमस्यश्विनौ देवता वन्दे छन्दोऽश्विनोः पात्रमसि सौर्यो देवता बृहति छन्दशुक्लस्य पात्रमसि छन्द्रमा देवता सतो बृहति छन्दो मन्त्रिणः पात्रमसि विश्वे देव देवतोष्णिः छन्द आग्रहिणस्य पात्रमसेन्द्रो देवता गगुच्छन्द बुच्छानाम् पात्रमसि इष्टर्गो वा अध्वर्यष्टर्ग खलु वेष्टुः सन्न्यान् वा मन्त्राश्च इति प्रातवागाद्युजाधात्मनद पुरस्तात् त्वोपवेशायत्वजा स्ृष्टुभो निगत्वा अभिभो चे स्वाहा प्राणापानौ मृत्योर्मापानं प्राणापानौ मामाः सृष्टं देवता सुपायते देव प्राणापानय च्छन्दे देशागुं सोमश्चे संवेशालत्वोपवेशालत्वेत्याः छन्दागुं शिवै संवेश उपवेशच्छन्दोभिगुं शिवृन्दे प्रतिपन्दानि भवन्तभ्यजिते मरुत्वते प्रतिमलो विजियाभ्य बृहद्रथन्धरे भवदीयं वारथन्दरमसौ बृहदाभ्यामेवैनान्दरे यज्ञ वारसं बृहद्यादेवै ैवै भविष्यतश्चान्तरेऽदि परिमितं बृहत्परिमिताच्चैव विश्वामित्रजमदग्ने वसिष्ठयना स्पर्धेतामदग्निर्विहविजमवश्यक्ते नै स वसिष्ठस्येन्द्रियंजगं षष्ठदं द्रियमेव तद्वेर्यं युधमान भ्यादलुजस्येन स भोजागम् स यज्ञकृतभगित्या हुस्तदेवताबृम् दगत्यज्ञष्टोमः सोमः साक्षादृच्छम् कुरु वेदयध्यक्षस्य नतिरात्रम् कुरु वेदयज्ञकृदुभिरैवाश्च देवताब्रिम् देवशीलान् भवति श्रुधायं मे तर्पयत प्राणं ृषम् नौषधो वे सोमस्य विश विशः खलु वैराज्ञप्रदातो मनसा सुजाता ऋप्रजाताफलयद्वश्यामा इन्द्रेण देवेर्वेरुघः संविदानानुगुंसवनायसा ममेत्याहौषधेभ्यदेवैन युस्वारे विषस्वारे देवतारे निर्याच्छाभिषणो दियोमे सोमस्याधिषुयमाणस्यामोगंशस्कन्देश्वलयम् त्रिजं वेर्यं प्रजाम्पशोनयजमानस्य निर्हन्तोस्तमभिमन्त्रेतामास्का प्रजदासहरारस्पोषेण मे वैतामाशास्त्रियस्य वेर्यस्य कृजाले पुशो नाम निर्घाताय द्रप्सश्च स्कन्दपधि मे मनुज्ञामिमन्त्रयो निमनुजश्च पूर्वः ऋधीर्यो निमनुसञ्चरन्द्रप्सञ्जहोञ्जनसप्तहोत्राः ो मे देवान् देवय शसेनार्पयति मनुष्यान् मनुष्यय शसेन देवय शस्येव देवे शुभयति मनुष्यय शशि मनुष्येषु जान् प्राचीनमाग्रगणाद्ग्रहा गृह्णी जातानुपागुं सुनोर्वादस्तानुपब्धिमतो देवानेव तद्देवय शसेनार्पयति मनुष्या मनुष्यय शसेन देवय शस्येव देवे शुभमति मनुष्यय वने त्वस्मान् वैश्वा नरो महिना विश्वशम्भोः सरह्वा वरा द्रविनन्दधात्वा युक्ष्मन्दः सह भक्षा स्याम विश्वे देवा मरुत इन्द्र अस्मानस्मिन् विधिते सव जयन जह्यो मालुक्ष्मन्दः प्रजमेषाम् वदन्दो इदम् धृतीतम्सवनम् कवेनामृते नरे च मसमैरयन्त एसौधम् वना सुवरानशाना स्विष्टिम्ना अभिवशीलो नयन्तु आयत नवधेर्वा अन्या आहुतयो हूयन्दनायतना अन्याया आघारवते स्ता आयतनवधीर्यासौ स्ता अनायतना ऐन्द्रवायवमादाया घारमाघारेरद्भरो अस्तु देवावोषतेभ्यः वसवे गज एवं वेदृथिवी एव उपद्रीवनीज भव उपदेवनीज भवति गज एवं वेदयिषते रुद्रभागो यन्निरजा चास्तञ्जस्वृदैर्गौपत्यगौ <coughs> राजस्पोषगम् सुधीर्जगम् संवत्सरे नागस्वस्तिम् मानः पुत्रेभ्यो दायं यभजत्स नेष्ठं ब्रह्मत निरभजत्स आगच्छत्स अब्रवीत् तथामित्यब्रवेदङ्गिरस दिवे सत्रमास ते सुवर्गल् लोकन्न प्रजानन्दितेभ्य इदं ब्राह्मणं रोहिते सुवर्गं लोकयन्तो यजेषां लोकयन्तो यजेषां पशव आसन्तानस्मास्तरं तं यज्ञवास्तु रुद्र आगच्छत् सो ब्रवीन् मम माधिमे पशवगिच्च गुर्वै मह्यमिमानित्य ब्रवेन्न वेदस्य ददीशदगिच्च ब्रवेद्यज्ञवास्तौ हीयते मम वैदधीतस्मा यज्ञवास्तुनाभ्यवेद्य तस्मादेतम् मन्थिनः सद्यश्रावमजहोत्तस्य रुद्रः पशोन्नाभ्यमन्यतयत्रैतमेवम् विद्वान् मन्थिनः सगश्रावम् जुहति रुद्रः पशोनभिचो भूयासन् जुष्टो वाचस्व तद्वाचामधुमत्तस्मिन् माता स्वाहा सरस्वत्यै गुंसमर्धरगायत्रेण रथम् धरम् गायत्र वर्तने यस्ते द्रप्सस्कन्दयस्ते अगुंशरुहुच्छ स्वाहा कृतमिन्द्राजतम् जुहोमि यो द्रप्स अगुंशः पलितः पृथिवृजाम् परिवापात् ध्याना सोमान् वन्थनयन्द्रशुक्रात् स्वाहा गतमिन्द्रायतञ्जुहोमि नस्ते धृत्सोमसमागम् यन्द्रयावान् स्वाहागतः पुनरप्येति देवान् दिवः पुस्तः पर्यम्बरिक्षात् स्वाहागतमिन्द्रायतञ्जहोमि ृत्विजाहायुज्यते ते मस्तमाया देवेभ्यो चेद्याचमेव तद्यज्ञमुखेवास्तुवारे तद्यज्ञस्य क्रियतेष्पममानगम् सर्पम् द्विवराम् द्विमराजेभिस्तुव रेद्योपतिष्ठते यज्ञो वै विष्णुर्यज्ञमेवाकर्विष्णो त्वन्नो अन्तमः शर्म यक्षसहन्त्यमथस्यते दे अक्षितमित्याहय देवानस्य दे वशिष्यतितदेवा सीतेनाप्याययति अग्निनामश्नवत्कोषमेव दिवे दिवेदवत्तमम् गोमागुम् अग्नेभिमागुम् अश्वे यज्ञो निवत्सखासमिद प्रहृष्यः इडावागुम् एषोऽसुर प्रजावान् देर्घो रजिः पृथुग् स्वसन्ते इह त्वष्टारमग्नियम् विश्वरो वमुपह्वजे अस्माकमस्तु केवलः तन्नस्तु देवमथपोषजत्नुदेव त्वष्टविरराणस्य स्वा यथा वेदः कर्मण्यः सुदक्षो युक्तज्ञा वाजायते देवकामः शिवस्वष्टविहागहि विभुःपोषमुदत्मना यज्ञे यज्ञेन बुधरूपः शुभरोपयोधा सृष्टिवीरोयते देवकामः प्रजान्वष्टामिष्यजनाभिमस्मे अथा देवानामपेदुपाथः प्रणोदेव्यानो दिवः हि विभागम् सकम् सरस्वधस्तनञ्जो विश्वजदिशतः भुक्षेमहि प्रजामिषम् एते सरस्व कोर्मयोजो मधुमन्तो घृतश्च्युतः एषान्ते सुमीमहे यस्य व्रतम् वशभो यन्ति सर्वे यस्य व्रतमुपतिष्ठन् भापः यस्य व्रते पुष्ट्यवतिर्निविष्टस्तगम् सरस्वम् दिव्यघुम् सुवर्णम् वजसम् गृहन्तमपाम् गर्भम् गठमोषधीनाम् अभिमता वृष्ट्यात्मजम् दन्तयुम् सरस्वम् तमवसे हुवेम निु केरा देवा नाम शिस्वसाहस्वः विजमाहुलम् प्रजान्तेनः यासु पाणिस्वम् गुरिः सुषोमा बहुसूपरी तस्यै इन्द्रम् वा विश्वदस्फलेन्द्रम् नरः असि तवर्णा हरजः सुपन्नामिहो वसानादिवमुत्पतन्तित्रान् सदनानि कृत्वादि पृथिवेलैते हिरङ्ग्यकेशरचसामिसारेर्वातजिवध्रजीमान् सुशभ्राजा उषसा न वेदा यशस्वती न पश्युवो न सत्याः आदे सुवर्णा अमिनम् ददेवैः कृष्णानावरणभोय दीनम् शिवाभिन्नस्मजमानाभिरागात्पदम् जिमिहस्तनयम् जभ्रा श्रैव विद्यम् मिमादिवत्सन्नमादासुशक्तिषाम् विष्टिरसर्जे पर्वतश्चिन्महि बुद्ध्वा विभाय दिवश्चित्सानुरेज तस्वने वः यत्क्रीड समरुदरिष्टिमन्द आ बलिवसधृगम् चोथवध्वे अभिक्रन्दस्तनजगर्भमाधाबुदम्बदा बलिदीगारथेन द्विजयुम् सुकर्षविषकन्यञ्जगुम् समाभवन्धूद्वदादि बालाः त्वन्द्याचिदच्छुताग्ने पशुर्नयवसे धामाहयत् अजनवनाविश्चन्ति चिक्वसः तव जातवेदो देवस्वधा जा मृतस्वधाम याश्च मायाहम् विश्वमिन्वत्वे ऊर्वे सन्दधुः पृष्टबन्धो युवानो वृष्टिम् मरतो रीर्घम् प्रबिन्वधविष्णो अश्वस्य धाराः अर्वाङ्गे देनस्तनयुने्यपो निषिञ्चन्न सुरः पिता नः क्रिण्वन्तपो मरुतः सुदानवह्यो घृतवद्विदचाभुवः आत्यान्नभिः विनयन्ति वाचिनमुत्सन्दुहन्ति स्तनयन्तमक्षितम् उटकृतो मरुतस्तादुङ्कि यत्त्वमिष्टिञ्जे विश्वे मरुतो धुनन्ति क्रोशाधिगर्दकन्ये पतुन्ना पेरुम् दुञ्जानापत्येव जाया ्या वा पृथिवी मधुना समक्षदवयस्पते क्रमताप ओषधेः कूर्जम् च तत्र सुमतिम् च पिबयत्रा नरो मरुदस्य मधुर्जन् चित्रम् अहूर्वभुग्वनवा नवदाहुवे अग्निकम् समुद्रवाससम् आसवगं स वितर्गथाफलस्येव भुजगम्भुवे अग्निकम् समुद्रवाससम् उभे वातस्वनम् कविम् पर्जन्यक्रन्थगुंसः अग्न्यगुंसमुद्रवाससम् ओ